अथ तैत्रीयोपनिषद्भागे तृतीयः प्रश्नः प्रारम्भः ओ सहनाभवतु सहनो भुनक्तो सहवीर्यङ्करवावहै तेजस्विनावधेतमःमाविद्विषावहैः ओम् शाम् दिश्याम् दिश्यान्तिः भृगर्वैवारुणिः करुणम्पितरमुपसहारा अतीः भगवो ब्रह्मेति तस्मा एतत्प्रोवाचा अन्नम् प्रारञ्जक्षश्रोद्रम्बरावाचमिति तनोहो वाचा ततो वा इमानि भूतानि जायन्ते ये न जातानि जीवन्ति यत्प्रियम् ज्यभिसंविशन्ति यद्भिजिज्ञासस्व तद्ब्रह्मेति सदपोगप्यत तदपस्तत्त्वा अन्नम् ब्रह्मेति विद्यजानात् अन्नाद्येव भूतानि जायन्ते अन्ने न जाता निजीवन्ति अन्नम् प्रियम् त्रिभितं विशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमपसार अधीः भगवो ब्रह्मेति समोहोवाच तपसा ब्रह्मभिजिज्ञासस्व तपो ब्रह्मेति तदपोदप्युता तदपस्तत्त्वा प्राणो ब्रह्मेतिदानात् प्राणात्येव खलमानिभूता निजायन्ते प्राणे न जातानि जीवन्ति प्राणम् प्रियम् दृभितम् विशन्तीति तद्विज्ञाय पुनरेव वर्णम् पितरमुपसतार अधीरिभगवो ब्रह्मेति प्रमोहोवाच स्वसा ब्रह्मभिजिज्ञासस्व ब्रह्मेति ततपोगत् ततपस्तप्त्वा ब्रह्मे दिव्यजानात् अनसह्येव खलिमानि भूतानि जायन्ते अनसाजातानि जीवन्ति हनप्रियम् च पितंशन्तीति तद्विज्ञाय पुनरेव वर्णम् पितरमुपसतार अधीरि भगवो ब्रह्मेति तगोहोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति ततपोदप्यत ततपस्तत्वा विज्ञानम् ब्रह्मेदुविधानात् विज्ञानाध्यैव खल्भिमानि भूता निजायन्ते विज्ञाने न जाता निजीवन्ति विज्ञानम् प्रियन्तिभिसंविशन्तीति भिख्णा तद्विज्ञाय पुनरेव वरुणम् पितरमपसार अधीः ततपोदप्यत ततपस्तत्त्वा आनन्दो ब्रह्मे दिव्यजानात् आनन्दाद्येव खल्वमानि भूतानि जायन्ते आनन्देन जाता निजीवन्ति आनन्दम् व्रियन्त्यभिसंविशन्तीति तैषाभा कविवारणीविद्या करमे व्यामन्प्रतिष्ठिता य एवम् वेदप्रतिष्ठति अन्नवानन्नादो भवति महान् भवति प्रदया वृषिभिब्रह्मवध्यसेन महान्कीर्त्या अन्नन्न तद्धृतम् प्राणो वा अन्नम् शरीरमन्नादम् प्राणे शरीरम् प्रतिष्ठितम् शरीरे प्राणप्रतिष्ठितः तदेतदन्नमन्ये प्रतिष्ठितम् तय एतदन्नमन्ये प्रतिष्ठितम् वेदप्रतिष्ठति अन्नवानम् नादो भवति महान् भवति प्रजयाभिषुभर्ब्रह्मेन महान् एन्नन्नपरिदक्षीता तद्धृतम् आपो वा अन्नम् ज्योतिरन्नादम् अप्सृज्योतिष्प्रतिष्ठितम् ज्योतिष्यापप्रतिष्ठिताः तदेतदन्नवन्ने प्रतिष्ठितम् स य एतदन्नवन्ने प्रतिष्ठितम् वेदप्रतिष्ठति अन्नवानम् नादो भवति ब्रह्मवर्ध्यसेन महान्वीत्या अन्नम् लो गर्वीता तद्व्रतम् पृथिवी वा अन्नम् आकाशोन्नादः पृथिव्यामाकाशप्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठिता एतदन्न <Sessi> मन्ये प्रतिष्ठितम् स य एतदन्नमन्ये प्रतिष्ठितम् वेदप्रतिष्ठति अन्नवानम् नादो भवति महान् भवति प्रतिया वशुभर्ब्रह्मवर्त्यसेना महाङ्कीत्यावसदौ प्रत्याक्षीता तद्वृतम् तस्माद्यया कया च विदया बह्वन्नम् प्राप्नुयात् राध्यस्मा अन्नमित्याचक्षते एतद्वै मुखतो ओन्नगो राध्रम् मुखतो अन्नको राध्यते स्मा अन्नकौ राध्यते या क्षेम इति वाचि योगक्षेम इति प्राणापानयोः अन्येति हस्तयोः विभतिरिति पादयोः विमुक्तिरिति पादौ इति मार्षे समाज्ञाः अर्थदेवीः तृप्तिरिति पृष्टौ बलमिति विद्युति इष इति पशुषु ज्योतिर्जिनक्षत्रेषु प्रजातिरमुदमानन्द इत्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावान् भवति तन्मह महान् भवति तन्मन मानवान् भवति तन्मन इत्युपासीत मम्यन्ते एस्मै कामाः तद्ब्रह्मेत्युपासीत भवति तद्ब्रह्मणः परिमल इत्युपासीत हर्येणम् प्रिये एप्रिया आभ्रातुर्याः प्रयश्चायम् पुरुषे यश्चासा बाधित्ये स एकः स य एवम् यत् अस्माल्लोकात् प्रेत्या एतमन्नमेवात्मानमुपसङ्क्रम्य एतम् प्राणमयमात्मानमुपसङ्क्रम्य एतम् मनोमयमात्मानमुपसङ्क्रम्य एतम् विज्ञानमियमात्मानमुपसङ्क्रम्य एतमानन्दमिमात्मानमुपसङ्क्रम्य इमाल्लोकान् कामान्नि कामरूप्यनुसञ्चलन् Aumidhatsamakajinaste haa Ouhaa Ouhaa Ouhaa Aumannam, Aumannam, Aumannam Aumannado, Aumannado, Aumannada Haggoshro kakrita, Haggoshro kakrita, Haggoshro kakrita Hamaspeprasamajarita पूर्वम् देवेभ्यो अमृतस्य मन्नमधुन्धमाहम् विश्वम् भवनमभ्यभवाम् सुवर्णज्योतिः य एवम् वेद विद्यपविषत् सह नावगतो सह नो भुनक्तो सह वीर्यङ्करवावहै तेजस्विनाविचेतमस्तमाविद्विषावहैः शाम् तिशान्तिः इति उपनिषद्भागे तृतीयः प्रश्नः समाप्तः